मुद्गलपुराण खंडम वन वक्रुचरित अर्टी 44, दंभासुर विचार श्रीगणेशा नम मुगल उवाच देव्रे प्रस्थेश दे दम्भासुरकविं विप्रमाह्वयामास सन्निधौ समागतं महाबुद्धिं शुक्रं मुनिवरं प्रभो प्रणनामससाष्टाङ्गं बद्धाञ्जलिपुडस्थितः तं काव्यस्थापयामास काञ्चनोत्तर आसने पप्रच्च माह्वयसे किमर्थमिति दानवं शुक्रस्य वचनं श्रुत्वा भयहर्षसमन्वितः उवाच तं महाभागं भक्तियुक्तेन चेदसा दम्भासुर उवाच स्वामिन् योद्धुं समायादः सिद्धिबुद्धिपदिः ब्रह्मणो मानसपुत्रस्तपसा तेन निर्मितः परिपृच्छामि तत्रत्वाम त्वां मुनिसत्तमं येन तं सर्वभावेन जानामि खलु तत्त्वदः का सिद्धि का तथा बुद्धिस्त ह्योकोऽसौ किं सामर्थ्यधरो भादिवदसर्वं च मेघ्रदः दम्भस्य वचनं श्रुत्वा शुक्रस्तं पुनरब्रवीद येन तत्त्वे प्रविज्ञाते गणेशे जायते मदिः शुक्र उवाच शृणुदैत्येन्द्र तस्यापि महिमानं महाद्भुतं येनत्वं त्वं तत्वे च तत्त्वे प्रनिपुणो भवेः सिद्धिर्मोहकरीमाया सर्वत्रैव प्रदृश्यते सिद्ध्यर्थं सर्वलोकाश्च यत्नवन्तो भवन्त्यधः इह स्वभोगार्थी सिद्धिमिच्छति दानव परलोकस्य सिद्ध्यर्थं जनस्तत्प्रसमाकुलः ब्रह्म भूयपदप्राप्तिमिच्छेद्वै सिद्धिरूपिकाम् इह ब्रह्मपरप्राप्तिस्त्रिविधा मोहसंज्ञिता माया मायागणपते प्रोक्ता भ्रान्तिरूपा महामदे वामभागस्तया देव्या क्रीडते सौगजाननः भ्रामयन् ब्रह्मविष्णवादीन् योगिनो मानवादिकान् ब्रह्मभूतस्वरूपत्वात् स्वाधीनः सततं मदः द्वितीया बुद्धिरूपा च माया तस्य महात्मनः तान् शृणुष्व महादैत्यत्वं सर्वविद्भवेः यत्किञ्चिद् दृश्यते सर्वं मनोवाणीमयं जगद मनो यत्सर्वं बुद्धिमयं बभौ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकं चित्तं पञ्चविधं प्रोक्तं बुद्धिरूपं तदेव च पञ्चानां बहवो भेदा वक्तुं तान्नैव शक्यते एवमेकाप्यनेकास्सौ बुद्धिः सर्वत्र दृश्यते मोहधारकरूपां ता सुभ्रान्तां बुद्धिमादराद ज्ञानरूपां हृदिस्तां तु ब्रह्माकारां प्रविधिः बुद्धियुक्तनरेणैव परत्रेह प्रलभ्यदे। बुद्ध्या ब्रह्ममयो योगो युज्यते ज्ञानिभिः परः एतादृशी महाभागा दक्षिणाङ्गधरासुर तस्य योगेश्वरस्यापि गणेशस्य महात्मनः क्रीडार्थं रचिते माये स्वस्याङ्गात्तेन दैत्यपा। ब्रह्मरूपं च दंविद्धि योगेन लभते नरः स्वानन्दाख्यं परं ब्रह्म तदेव नगरं मदं तत्र नित्यं वसति बुद्धिसमन्विदः ब्रह्मणाराधितं ब्रह्म पुत्रभावार्थमादराद तदेव गणराजोऽयमागदो ब्रह्मणः सुदः मातुः पितुश्च बन्धं च पुत्रौ हरति यत्विति तदर्थं पुत्रभावेन ब्रह्मणा प्रार्थितो विभुः धर्मसंरक्षणार्थाय त्वां अतस्त्वं शरणं गच्छ प्रभुमिच्छसि जीवितुम् मुद्गल उवाच काव्यस्य मुनिमुख्यस्य वचनं ब्रह्मदायकं वेदान्तसारसम्भूतं श्रुत्वा दम्भ उवाचः दम्भ उवाच स्वामिन् श्रुतं मया वाक्यं त्वदीयं योगसंयुधम् परन्तु संशयं चिन्धि हृदिस्थं कथयामि एतादृशं परं ब्रह्मगणेशं चेन्महामुने धर्मा धर्मावतस्तस्मात् सम्भूतौ नात्र संशयः योगरूपेण सर्वत्र गणेशस्तिष्ठति प्रभो धर्मस्य रक्षणं सोऽपि किं करोति विकारदः धर्मस्य तथा नाशं किमर्थं प्रकरोधि सः एदं संशयजातं मेच्छेत्तुमर्हसि साम्प्रतम् काव्य उवाच शृणुदम्भगणेशस्य चेष्टितं दं सर्वदम् परं येन ते संशय सर्वो नाशं यास्यति तत्क्षणाद इदं सृष्टं गणेशेन नानाभेदमयं जगद तत्र स्वस्वपदे चैव स्थापिता जन्धवोऽभवन् अधर्मस्य च धर्मस्य व्यवस्था तेन सा कृता तत्र लोभन वै धर्ममधर्मो जायते यदा सुराणां वै तेजः क्षीणं भवति सर्वतः असुराणां महत्तेजो वर्धतेजदिने दिने यदायं गणराजस्तु देवानां पक्षवर्धनः असुरानां विनाशाय स्वयं भवति चोद्यदः हत्वा देवगणैः सर्वैरसुराणां बलं महद स्वस्थाने स्थापयत्येव धर्मं सर्वप्रयत्नतः धर्मेण सकलं दैत्यह्यधर्मस्य बलं हतं तदा दैत्यादिकानां तु मूलच्छेदो भविष्यति देवानामुदितं तेजो भवेद्यदि महाद्भुतं दैत्याय वरदस्तर्हि भवेच्छानेकरूपवान् असुरैर्वरसंयुक्तैर्धर्मे क्षीणे समन्ददः अधर्मस्य स संस्थां वै यथा पूर्वमकल्पयत् एवं लोभसमायुक्ता सुरादैत्या भवन्ति चेत् तदा तेषां विनाशाय गणेशो यतते सुर नास्ति तस्य विचारेण स्वः परः क्वचिदेव च क्रीडार्थम् स्वात्मभावेषु स्थापयत्येव वै मुद्गल उवाच शुक्रस्य वचनम्रम्यम् श्रुत्वा दम्भः प्रतापवान् गणेशम् मनस्साध्यायन् संस्थितो नगरे स्वके एकान्ते महातेजा विचारं प्रचकारः अयं गणेशनामा वै पूर्णं ब्रह्मसनातनं तमेव शरणं गच्छन् यशस्वी स भविष्यति सर्वेषु समरूपेण स्थितोऽयं त्यक्तवा सिपी सिेदुर्म परंर्भवता तहृद्भिना तस्या बुद्धिपदीम गणेश कुशलमविता दुष्ट सिद्धिबुद्धिविहीनं तु न किञ्चिद् दृश्यते मया अतस्थं शरणं यामि सुरासुरसमं विभुम् इति निश्चितसङ्कल्पो दम्भः सुष्वापनिर्भयः गणेशं हृदि विन्यस्य भक्तिभावेन भावितम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि मौद्गले महापुराणे प्रथमे खण्डे दम्भासुर विचारो नाम चतुश्चत्वारिंशोऽध्यायः ॐ